नारायणीयं दशकं 75 मीटर मीटर् श्रद्धरा प्रादः प्रस्तुते मल्लतूर्ये सङ्घे राज्ञां च मञ्चानभिययुषि गदे नन्दगोपेऽपि हर्म्यं कंसे सौधाधिरूढे त्वमपि सः बलः सानुगच्छारुवेषो रङ्गद्वारं गतो भूः कुपितकुवलया पीडनागावलीढम् पापिष्टापेहि मार्गाद् द्रुतमि दिवजसा निष्ठुरक्रुद्धबुद्धेरम्बष्टस्य प्रणोदा दधिकजवजुषा हस्तिना गृह्यमाणः केली मुक्तोगोपी कुचकलशचिरस्पर्दिनम् कुम्भमस्य व्याहत्याली यथास्त्वम् चरणभुवि पुनर्निर्गतो वल्गुहासी हस्तप्राप्योऽप्यगम्यो षडिदि मुनिजनस्येव धावन् क्रीडनापत्यभूमौ पुनरभिपतस्तस्य दन्तं सजीवम् मूलादुन्मूल्यतन्मूलगमहितमहामौक्तिकान्यात्ममित्रे प्रादास्त्वं हारमेभिर्ललितविरचितम् राधिकायै दिशेति गृह्णानं दन्तमंसे युधमधफलिना रङ्गमङ्गाविशन्तं त्वां मङ्गल्याङ्गभङ्गीरभसहृदमनो लोचनावीक्ष्य लोकाः हंहो धन्योनु नन्दो नहि नहि पशुपालाङ्गनानो यशोदा नो नो धन्येक्षणा वेदि सर्वे शशंसुः पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदा वेदिदोभूः दृष्ट्वा धममुपगदे पुण्यकाले जनौकाः पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिकोमुष्टिशाली त्वां रामं चाभिपेदे झडझडिति मिथो उत्पादापादनाकर्षणविधरणान्या सदां तत्र चित्रं मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् हाधिकष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ नद्रक्ष्यामो द्रक्ष्यामो व्रजामस्त्वरिदमिति जने भाषमाणे तदानीम् चाणूरम् तम् करोद्भ्राह्मणविकलदसुम् प्रोधयामासिधोर्व्याम् पिष्टो भून्मुष्टिकोऽपि द्रुतमधहलिना नष्टशिष्टैर्दधावे कंस संवार्य तूर्यं कलमधिरविदन् कार्य मार्यान् पितृं स्थानाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय दुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्जमञ्जन्नुदञ्ज खड्गव्यावद्गदुःसङ्ग्रहमपि च खटात् प्राग्रहीरौग्रसेनिम् सद्यो निष्पिष्टसन्धिम् भुवि नरपदिमापात्य तस्योपरिष्टा त्वयापात्ये तथैव नागिनाम् पुष्पवृष्टिः किम् किम् सततमपि भिया त्वद्गदात्मा सभेजे सायुज्यं त्वद्वधोद्धा परमपरमियं वासना कालनेमेः तद्भ्रातृनष्टपिष्ट्वा धृतमथपितरौ सन्नमन्नुग्रसेनं कृत्वा राजानमुच्चैर्यतुकुलमखिलं मोदयन् कामदानैः भक्तानामुत्तमं चोद्धवमरगुरोराप्तनीतिं सखायं लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोगान् सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द